नारदपुराणं उत्तरार्धम् अध्यायं 57 सेवेन् वस्तुरूवाच देवान् ऋषीन् पितॄंश्चान्यान् सन्दर्प्याचम्य वाग्यदः हस्तमात्रं चतुष्कोणं चतुर्द्वारं सुशोभनं पुरं विलिख्य विधिजेतीरे तस्य महोदधेः मध्ये तत्र लिखेत् पद्मष्टपत्रं सकर्णिकं एवं मण्डलमालिख्य पूजये तत्रमोहिनी मोहिनि अष्टाक्षरविधानेन नारायणमजं विभुम् अध देशं प्रवक्ष्यामि कायशोधनमुत्तमं क्षकारं हृदये चिन्त्यं रक्तम् रेफसमन्वितम् ज्वलन्तम् त्रिशिकं चैव दहन्तम् पापसञ्चयम् चन्द्रमण्डलमध्यस्तमेकारं चिन्दयेद चिन्तयेत् शुक्लवर्णम् प्रवर्षन्तमृतम् प्लावयन्महीम् एवं निर्धूतपापस्तु दिव्यदेहस्ततो भवेद अष्टाक्षरं तदो मन्त्रम् न्यस्ये देहात्मनेर्बुधः वामपादं समारभ्य क्रमशश्चैव विन्यसेद पञ्चाङ्गं वैष्णवं चैव चतुर्व्यूहं तथैव च करशुद्धिं प्रभुर्वीद मूलमन्त्रेण साधक एकैकं चैव वर्णन्तु अङ्गुलीषु पृथक् पृथक् ओङ्कारं पृथिवी शुक्लं वामपादे नकारस्तु वश्यामो दक्षिणे दुव्यवस्थितः मोकारम् काल मे बाहुर्वाम कट्याम् निधापयेद न कारम् पूर्वबीजम् दुदक्षिणस्याम् व्यवस्थितः बाह्यव्योऽयम् यकारस्तु वामस्कन्धे समाश्रिदः नाकार सर्वदा ज्ञेयो दक्षिणां सेव्यवस्थितः यकारोऽयं शिरस्तश्च यत्र लोकाव्यवस्थिता का ओङ्कारं हृदयेन्यस्य विकारं वा शिरस्यथ ष्णकारं वै शिखायां तु विकारं कवचेऽन्यसेद नकारं नेत्रयोस्तु स्यान् मकारं चास्त्रमीरिदं ललादेवसु देवस्तु शुक्लवर्णः समास्थितः रक्तसङ्कर्षणश्चैव मुखे वह्न्यकसन्निभः प्रद्युम्नोहृदये हृदये पीतो निरुद्धो मो मेघने स्थितः सर्वाङ्गे सर्वशक्तिश्च चतुर्व्यूहार्चितो ममाग्रेवस्थितो विष्णुपृष्टतश्चापि केशवः गोविन्दो दक्षिणे पार्श्वे वामेधुमधुसूदनः उपरिष्टात्तु वैकुण्ठो वाराहपृथिवीतले अवान्तरदिशो यास्तु तासु सर्वासु माधवः गच्छतस्तिष्ठदो वापि जाग्रदस्वपतोपि वा नरसिंहकृता गुक्तिर्वा सुदेवमयोह्यहम् एवं विष्णुमयो भूत्वा तदकर्मसमारभेद यथा देहे तथा देवे सर्वतत्त्वानि योजयेद् फकारान्तं समुद्दिष्टं सर्वविघ्नहरं शुभं तत्रार्कचन्द्रवह्नीयनां मण्डलानि विचिन्तयेत् पद्मध्ये न्यसेद्विष्णुम् भुवनस्यान्तरस्य तु ततो विञ्चित्यहृदये प्रणवम् ज्योतिरुत्तमम् कर्णिकायाम् समासीनम् ज्योतिरूपम् सनातनम् अष्टाक्षरम् ततो मन्त्रम् न्यस्य चैव यथाक्रमम् तेन समस्तेन पूजनम् परमम् स्मृतम् द्वादशाक्षरमन्त्रेण यजेद्देवं सनातनं तदोवधार्यहृदये कर्णिकायां बहिर्न्यषेद चतुर्भुजं महासत्त्वं सूर्यकोडिसमप्रभम् चिन्तयित्वा महायोगं क्रमाद मीनरूपा वहश्चैव नरसिंहश्च वामनः आयान्तु देवावरदा मम नारायणाग्रदः सुमेरु पादपीठं ते पद्मकल्पितमासनम् सर्वतत्त्वहितार्थाय तिष्टत्वं मधुसूदन पाद्यं ते पादयोर्देव पत्मनाभ पद्मनाभसनातन विष्णो कमलपत्राक्षगृहण मधुसूदन मधुपर्कमःेवब्रह्माध्यायकल्पितं मया निवेदितं च भक्त्यार्थं गृहाणपुरुषोत्तम मन्दाकिन्यास्तदो वारि सर्वपापहरं शिवं गृहाणा मनीयं त्वं मया भक्त्या निवेदितं त्वमापःपृथिवी चैव ज्योतिस्त्वं वायुरेव च लोकसंधृतिमात्रेण वारिणा स्नापयाम्यहं देवतन्तुसमयुक्ते यज्ञवर्णसमन्विते स्वर्णवर्णप्रभेदेव वासी प्रतिगृह्यतां शरीरं च न जानामि चेष्टां च तव केशव मया निवेदितं गन्धं प्रतिगृह्य विलिप्यताम् ऋग्यजुःसाममन्त्रेण त्रिवृदम् पद्मयोनिना सवित्रिग्रन्थिसंयुक्तमुपवीदं तवार्प्यदे दिव्यरत्नसमयुक्ता वह्निभानुसमप्रभा पात्राणि शोभयिष्यन्ति अलंकारस्तु माधव सूर्यचन्द्र सोमर्ध्यो दिविद्युदग्न्यौस्तथैव त्वमेव ज्योतिषां देव दीपोऽयं प्रतिगृह्यतां वनस्पतिरसो दिव्यो गन्धाढ्यः सुरभिश्च ते मया निवेदितो भक्त्या धूपोऽयं प्रतिगृह्यताम् अन्नं चतुर्विधं स्वादु रसायि षड्भिः समन्वितां मया भक्त्या नैवेद्यं तव केश्यव पूर्वे दले वासुदेवं याम्ये सङ्गीर्क्षणं न्यसेद प्रद्युम्नं पश्चिमे कुर्यादनिरुद्धं तदोत्तरे वाराकं च तथाग्रेये नरसिंह च नैहृदे वायव्यं माधवं चैव तथैशानेत्रिविक्रमं तथाष्टाक्षरदेवस्य गरुडं परिदोन्यसेत वामपार्श्वे तथा चक्रं शङ्खं दक्षिणदोऽन्यसेद तथा महागदां चैवन्यस्येद्देवस्य दक्षिणे तदशार्गधनुर्विद्वान्यस्येद्देवस्य वामदः दक्षिणे चेशुद्धिदिव्ये खड्गं वामे च विन्यसद श्रियं वनमालां च पुर तत श्रीवत्सकौस्तु भौ विन्यस्य धृतयादीनि पूर्वादिषु चतुर्ष्वपि ततोऽस्त्रं देवदेवस्य कोणे चैव दुविन्यसेद इन्द्रमग्निं यमं चैव निर्वृदिं वरुणं तथा वायं धनदमीशानमनन्दं ब्रह्मणा सह पूजयेत् स्वकैर्मन्त्रैरधश्चोर्ध्वं तथैव च एवं सम्पूज्य देवेशं मण्डलस्थं जनार्दनं लभेदभिमदान् पामानरो नास्त्यत्र संशयः अनेनैव विधानेन मण्डलस्थं जनार्दनं पूजिदम्यस्तु यस्तु पश्येत् स प्रविशेद्विष्णुमव्ययं विधिनानेन केशवः जन्म मृत्युजरातीर्त्वा विष्णोः पदमवग्नुयात् यस्मरेत् सतदम् भक्त्या नारायणमदन्द्रितः अन्यहं तस्य वासा यस्वेदद्वीपप्रकीर्तितः नमस्कारं तदीयकं स नाम सर्वतत्त्वानां इत्यभिधीयते अनेनैव विधानेन गन्धपुष्पं निवेदयेद् एकैकस्य प्रगुर्विद यद्धोद्दिष्टम् क्रमेण तु मुद्रास्तदो निबध्नीयाद्यथोक्ति क्रमवेदितम् जपम् चैव प्रकुर्वर्ति मूलमन्त्रेण तत्त्वविद अष्टाविंशतिमष्टौ वा शतमष्टोत्तरम् तथा काम्येषु यथोक्तम् स्याद्यथाशक्ति समाहितः पद्मं शङ्खं च श्रीवत्सं गदां गरुडमेव चक्रं खड्गं च सार्गं च अष्टौ मुद्रा प्रकीर्तिताः गच्छ गच्छ परं स्थानं पुराणपुरुषोत्तम यन्नब्रह्मादयो देवा विदन्ति परमं पदम् अर्चनं येन जानन्ति हरेर्मन्त्रायुर्यथोदितम् मूलमंत्रे श्री त्यच्युत शुभेबृहारदीयपुराणे उत्तरभागे वसुमोहिनीसंवा पुषोत्तम महात्म्ये सप्तचाश्त ओ